हरि ओम् श्री जगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे द्वाविंशोऽध्यायः व्यास उवाच श्रुत्वा सुता वाक्यमानन्दितात्मा नृपाश्रयित्वा नृपदे जगादे व्रयन्तु कामम् शिबिराणि भूपा श्वो वा विवाहम् पक्ष्याणि पेयानि मयार्पितानि गृह्णन्तु सर्वे मयि प्रसन्ना स्वभाविकार्यम् किल समेत्य सर्वैरह्यसंविधेयम् नायाति पुत्री किल मण्डपेद्य करोमि किम् भूपतयोऽत्र कामम् तस्य समाश्वास्य सुताम् न ईशे गच्छन्तु तस्मात् शिविराणि भूपा न विग्रहो बुद्धिमतां निजाश्रिते कृपाविधेया सततम् ह्यदव्यपत्ये विधाय तां प्रातरिहानैषे सुताम् न गच्छन्तु नृपा यथेष्टम् इच्छापणम् चित्ते, परिचिन्त्यचित्ते प्रातः करिष्याम्यथसं विवाहम् सर्वैः समेत्यातृन्नृपै समेतै स्वयंवर सर्वमतेन गार्य कृत्वा नृपासे वितथं विदित्वा वचो ययुत्वा निकेतनानि विधाय पार्श्वे नगरस्य रक्षां चक्रुक्रिया सुबाहु अप्यार्यजने समेत चकार्यकार्याणि विवाहकाले पुत्रीं समाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदाम् वरिष्ठै स्नानादिकम् कर्मवरस्य कृत्वा विवाहभूषाकरणम् तथैव अन्नय्य वेदी रचिते गृहे वै तस्याम् भूमिपतिश्चकारे सविष्टरम् च मनीयवर्मर्घ्यम् वस्त्रद्वयम् गामसकुण्डले द्वे समर्प्य तस्मै विधिवन्नरेन्द्रे ऐच्छुतादानमहीन सत्वम् स्वप्यगृही सर्वमदीनचेता शशामचिन्ता मनोरमाया कन्यां सुकेशीम् निधिकन्यकास मां मेनितदात्मानमनुत्तमम् च सपूजितम् भूषणवस्त्रदानै पुरुत्तमं तं सचिवातदानिम् निन्युच्यते कौतकमण्डपान्तम् मुदयान्मुदान्विता वीतभया च सर्वे समाप्तभूषाम् श्रीयच्यतां राजसुतां सुयाने आरोप्य निन्युर्वरसन्निधानम् चतुर्कयुक्ते किलमण्डपे वै अग्निं समाधाय पुरोहितस्व भूत्वा यथावच्चतरन् ले अभाय यत् कौतू वधूवरो प्रेमयुतो निगामं लाजा विसर्गम् विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणाञ्च तत्र यथोचितं तत् सर्वं विधानं कुलगोत्रदातं शतद्वयं चासयुजां रथानाम् सुभूषितम् चापि तदो नृपेन्द्र सुदर्शनाय सुपूजितम् पारिबर्हम् विवाहे वदोत्कटान् हेम विभूषिताञ्च गजाङ्गिरे शृङ्गसमानदेहान् शतं प्रेमयुतो नृपेन्द्र दासीशतं काञ्चन च करेणुकानाम् च शतम् सुचारु समर्पयामासवराय राजा विवाहकाले मुदते मुदितो नुवेलम् अदा पुनर्दाससहस्रमेकम् सर्वायुधै सम्भ्रभूषितम् च रत्नानि वासासि यथोचितानि दिव्यानि तथा विकानी तथाविकानि ततो पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि सिन्धुद्भवानाम् सुरगोत्तमानाम् मदासहस्रम्यम् क्रमेलकानाम् च शतत्रयम् वै प्रत्यादिशद्भारभूताम् सुचारु शतद्वयम् वै शकटोत्तमानाम् तस्मै ददो धान्यरसे प्रपूरितम् मनोरमाम् राजसुताम् प्रणम्य जगद् वाक्यं भीताञ्जलिपुरे न सोऽस्मि ते राजसुते वरीठे तद्ब्रूहि यत्रातुमनोगतम् ते सं चारुवाक्यं जगाद् सापि तस्य स्तुते भूप्रकुलस्य वृद्धि सम्मानिताहं मम सू न वित्वया दत्तायतो रत्नवरा सुकन्या न सोमिह किं त्वां सजनम् अहतरं सुमेरुतुल्यस्तु कृतस्तुतोद्यमे सम्बन्धिना भूपतिनोत्तमेन अहोतिचित्रं नृपते चरित्रं परं पवित्रं तव वदामि यद्भ्रष्टराज्याय सुताय मेद्य दत्ता त्वया पूज्य सुता वनाधिवासाय किलाधनाय पित्राविहीनाय विसैन्यकाय सर्वान्निमान् भू निपतिन् विहाय कलाशनाय अर्थविवर्जिताय समानवित्ते च कुले बले च ददाति पुत्रीन्द्रपति च भोय, न कोपी मे भूपसुतीर्थहीने गुणान्वितां रूपवतीं च दद्यात् वैरं तु सर्वैः सह संविधाय नृपैर्वरिष्ठैसंयुतैश्च सुदर्शनायात् सुतार्पिता सुतार्पितामे। किं वर्णये धैर्यमिदम् निशम्य वाक्यानि नृपप्रवृत्य कृताञ्जलिर्वाक्यमुवाच भूय गृहाण राज्यम् मम सुप्रसिद्धम् भवामि सेनापतिरद्य चाहम् नो चेत्तदर्थं सुतान्वितो राजपलानि भुङ्क्ष्व विहाय वार्मणसीकानि वासम् वने पुरे वा सुममतो नमेस्ति नृपा तु सन्त्येव रुषान्विता वै गत्वा करिष्ये प्रथमम् तु युद्धमहं ततः परम् दैववशो तथापि धर्मे जयो नैव कुतेऽप्यधर्मे तेषाम् किला धर्मवताम् नृपाणाम् कथम् भवेत्यनुचितम् चिन्तितं वै आकर्ण्य तद्भाषितमर्थवच्च जगादवाक्यम् हितकारकं तम् मनोरपा मानवमवमानमवाप्यस तस्मात् प्रसन्ना राजन् शिवम् ते तु त्यक्त्वा भयम् तं स समेत सुतोऽपि मे नूनमवाप्य राज्यम् साकेत पूर्वम् प्रचरिष्यति हे विसर्जयात्मान्नि च सन्गन्तुम् शिवम् भवानी तव सन्विधास्यति न कापि चिन्ता मम भूपवर्तते सञ्चिन्तयन्त्या परमाम्बिकाम् वै कोषागता विविधवाक्यपदैरफले अन्योन्यभाषणपदि अमृतोपमयी च प्रात नृपासमधिगम्य कृतं विवाहम् रोषान्विता नगरबाह्यगता सतोच्छु अद्यैव तं बालं तथैव किल तं न विवाहयोग्यम् वृन्धीमतां लक्ष्मीम् लज्जाम वापि निजसन्म कथं व्रजेम शृण्वन्तु दूर्यङ्गदनान् किलवद्यमानान् शङ्खस्वनायनभिभवन्ति मुदङ्गशब्दा गीतध्वनिं च विविधम् निगमयस्वनञ्च मन्या महेन्द्रपतिनात्र कृतो विवाह अस्मान् प्रकार्यवचने विविधिवन्वच्चकार वै वाहिके न वैवाहिक विधिपीड़ कर्तव्य मद किचित भूपरस्परमती कृत्वा विवाह प्रभावे विधिपतिम भूपान निमंत्रयु जगाम राजा काशीपति स सुदुरैपतीथ प्रभावै आगच्छन्तम् तदा दृष्ट्वा नृपा काशीपतीम् तदा नोतु किञ्चित् विक्रोधान् मौन माधाय संस्थिता स गत्वा प्रणिपत्याः कृताञ्जलीय भाषते आगन्तव्यम् नृपे सर्वे भोजनार्थम् गृहे मम कन्यासु भूप किं करोमि हिदाहितम् भवद्भिः सूषमकार्यो महान्तो हि दयालवहे तन्निशम्येव च तस्य नृपा क्रोध परिप्लता प्रत्युचुर्भुक्तमस्माभि स्वगृहम् नृपते व्रज कुरु सुकृतम् कृतम् नृपा सर्वे प्रयान्तद्य स्वानि स्वानि गृहाणि वै सुबाहू अपि दशुत्वा जगाम शङ्गितो गृहम् किम् करिष्यन्ति संविघ्ना क्रोधयुक्ता नृपोत्तमः कते तस्मिन् भयिपालचक्रुश्च समयम् पुनः गृह्वा मार्गम् ग्रहीष्याम कन्या भवा सुदर्शनम् केचन किमस्माकम् हन्त तेन रूपेण वै दृष्ट्वा तु कौतकम् सर्वम् गमिष्यामो यथा गतम् तेन पा सर्वे मार्गमाक्रम्य संस्थिता चकारोत्तरकार्याणि सुबाहूगृहम् गतः इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्याम् संहितायाम् तृतीयस्कन्धे सुदर्शनशीकलयोर्विवाहवर्णनम् नाम द्वाविंशोऽध्यायः श्रीसीता जगदम्बिकायार्पणमास्तु